ब्रह्मन् ब्रह्मन् ब्रह्मन् ब्राह्मणो ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मणः ब्रह्मन् ब्राह्मणो ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मणो ब्रह्म वक्षसे ब्राह्मणो ब्रह्मन् ब्रह्मन् ब्राह्मण ब्रह्म brahmahano brahmavacchasi brahmavacchasi brahmahano brahmahano brahmavacchasi jayatam jayatam brahmavacchasi brahmahano brahmahano brahmavacchasi jayatam brahmavacchasi jayatam ी ब्रह्म वर्तसि राष्ट्रे राष्ट्र आजायताम् ब्रह्म वर्तसि ब्रह्म राष्ट्रे ब्रह्म वर्तसीति ब्रह्म वर्तसी जायता राष्ट्र आरायता राजन्यो औ राजन्यो ओराष्ट्र अजायताञ्जाय का राष्ट्रे राजन्यः अराष्ट्रे राष्ट्रे राजन्यो अराजन्य अराष्ट्रे राष्ट्रे राजन्य शूर शूरो अराजन्यो अराष्ट्रे राष्ट्रे राजन्यशूरः rajanya shura shura rajanya rajanya shura ishamya ishamya shura rajanya rajanya shura ishamya shura ishamya ishamya shura shura ishamya adimbyadhiyaadhyadimbyadhi shamya shura shura ishamya adimbyadhi ईषंजोतिं याध्यतिं व्याधी शं यै शंजोतिं व्याधीमहारथो महारथोतिं याधीशं यै शं योतिं व्याधीमहारथः अतिं व्याधिमहारथो महारथोतिं याज्यतिं व्याधीमहारथो रायताञ्जायताम् महारथोतिं याज्यतिं व्याधीमहारथो जायताम् <Un> तिम् व्याधीत्यति व्याधी महारथो जायताम् जायताम् महारथो महारथो जायताम् दोग्धि दोग्धी जायताम् महारथो महारथो जायतां दोग्धी महारथ इति महा ी धेनध्येनर्द्री जायतां जायतां दोग्ध्री वोढा धेनुर्द्वृद्वी नड्वान् वोढा वोढा नड्वा नाशु राशुर वोढा वोढा नड्वानाशुः नड्वानाशु राशुर नड्वान नड्वाशु सप्तिः सप्ति राशुर नड्वान नड्वा नाशु सप्तिः आशुः सप्तिः सप्तिराशु राशु सप्तिः पुरन्धिः पुरन्धिः सप्तिराशु राशु सप्तिः सप्तिः पुरम् धिःपुरम् दिः सप्तिः सप्तिः पुरम् धर्योषायौषा पुरम् दिः सप्तिः सप्तिः पुरम् धर्योषाः पुरन् धर्योषायौषापुरम् धिःपुरन् धर्योषाः जिष्णर्जिष्णर्यौषापुरन्धिः पुरम् धर्योषाः जिष्णुः जोषा जिष्णर्जिष्णर्योषा जोषा जिष्णोरथेष्ठारथे स्था जिष्णर्योषा जोषा जिष्णो रथेष्ठाः जिष्णो रथेष्ठारथे स्था सभेयः rathestha samaya samayo anathestha rathestha sabhe yo yuvayuma samheyo anathestha rathestha sabhe yo yuva rathestha stha iti rathe stha सभे यो युवा युवा सभे यस् समेयो युवास्यस्यस्य युवा सभे यस् सभे यो युवास्य युवास्यस्य युवा युवास्य यदमानस्य यदमानस्यस्य युवा युवास्य यदमानस्यस्य आस्य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 ीरोयतां जायतां वीरो वीरोयतानि कामेनिकामेनिकामेनिकामे जायतां वीरो निकामे कामेनिकामे जायतानि निकामे निकामे निकामे कामेन कामेनि कामेनि कामेनि कामेन पर्जन्यो नो निर्जन्यः कामे निकाम इति कामे निकामे नः पर्जन्यः पर्जन्यानानः पर्जन्या वरिषतु वर्षतु पर्जन्यानानः पर्जन्या वर्षद पर्जन्यावर्षतु वर्षतु पर्जन्यः पर्जन्या वर्षद फलवत्यः फलवत्य वरिषद पर्जन्यः पर्जन्या वरिषद फलवत्यः परिषतु फलवत्यः फलवत्यो वर्षतु परिषत् फलवत्यो नो नः फलवत्यो वरिषतु परिषत् फलवत्यो नः फलवत्यो नो नः फलवत्यः फलवत्यो न ओषधय ओषधयो नः फलवत्यः फलवत्यो न ओषधयः फलवत्य इति ना औषधयौ औषधयोनो न औषधय पच्चन्तां पच्चन्थाम औषधुलोनो न औषधय पच्चन्तां औषधय पच्चन्तां पच्चन्तां औषधय औषधय पच्चन्तां योगक्षेमो योगक्षेम पच्चन्तां औषधय औषधय पच्चन्तां योगक्षेमः पच्यन्ताय योगक्षेम योगक्षेमः पच्यन्तां पच्यन्ताय योगक्षेमो नो नयोगक्षेमः पच्यन्तां पच्यन्ताय योगक्षेमो नः योगक्षेमो नयोगक्षेम योगक्षेमो न योगक्षेम योगक्षेमो योगक्षेम इति योगक्षेमः नः कल्पताम् कल्पतान् मो कल्पतामिति कल्पताम् आ ब्रह्मन् ब्राह्मणो ब्रह्मवत्सीदायथा माष्ट्रे राजन्याः दिव्याधीमहारथो जायता दोघ्रीधेनुर्वोढा नड्मानाशुः सप्तपुरम् निर्योषा जिष्णुरधेष्ठा सभेयो युवास्य यजमानस्य वीरो कामेनी कामेन पर्जन्या आवर्षत फलवत्यो न ओषधयः पच्यन्ताोगक्षेमो नः कल्पतावम खलु प्रस्तोता सामप्रस्तौति स यत्र प्रस्तुयात्तसतो मा सद्यमय तमसो मा ज्योतिर्गमय मृत्यो मा नृदङ्गमयेति शयता हासतो मा सत्यमयेति मृत्युमा सत्सदमृतम् मृत्योन्मा मृतङ्गमयामृतं मा गुर्विद्य वै तदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतम् मृत्योन्मा मृतङ्गमयामृतं मा गुर्विद्य वै तदाह मृत्योन् मा मृतङ्गमयेति नातिरोहितमिमास्त्यथया नितराणि तोत्राणि तेष्मात्मनेनाद्यमागाये तस्मादुपेषु वरम् वृणीतयङ्कामङ्कामयेतदग्रेस एष एवम् विदुधातात्मनेमायजमानाय मायङ्कामङ्कामयते तमाघायदि तज्जैतल्लोकजितेव नैवालोक्यताया आशास्ति य एवमेतत्सामवेदा होवाचैतद्भैतदक्षरङ्गार्गिब्राह्मणा अभिवदन्त्यस्थो लमनन्त ह्रस्वमदीर्घमलोहितमस्मेहमच्छायमतमो वायवनाकाशमसन् मरसमगन्धमचक्षुष्कमश्रोत्रमवागमनो तेजस्तमप्राणममुखममात्रमनन्दरमभा तदस्नाति किञ्चन न तदश्नाति कश्चन वा प्रशासने गार्गि अक्षर प्रशासनेारागि सूर्या चंद्रमसौ विधत ठत अक्षर सेशसने गागिद्यादि ठत एक अक्षर से प्रशाने गारगिनीमेशा मासा मासा ऋतवः इति विधृता स्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽ्यानद्यस्य दन्ते श्वेतेभ्यः मन्वेतस्य वा अक्षरस्य प्रशासने गागि ददतो मनुष्या प्रसङ्गे सन्ति यजमानन्देवाधर्मीम् पितरोन्वायता यो वा एतदक्षरङ्गार्यविलित्वा तपस्तप्यते बहूनि बलिषसहस्राण्यन्तवदेवास्य तद्भवति यो वाय तदक्षलङ्गार्यविदित्वा ैति सकृपणोचयेतदक्षरङ्गार्गिविदित्वा स्माल्लोकात् प्रैति सब्राह्मणः ये तदक्षरङ्गार्यदृष्टं <Spotarespace> ्याकाश ओतश्चक्रोतश्चेति भगवन्त स्तदेव बहु मन्ये द्वञ्यदस्मान्नमस्कारेण मुच्ये ध्वन्न वै दातु ततो ह वाचक्नव्यपरनामा ठितानि द्विजादिभिः तावन्ति, द्विजादि तावन्ति हरिणामानि कीर्तितानि न संशयः यदक्षरपदभ्रष्टम् मात्राहीनम् तु यद्भवेत् तत्सर्वम् क्षम्यताम् देवनारायण नमोऽस्तु दे। विसर्गबिन्दुमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमा निर्जित्यवादसमये ऋषे सर्वानुपस्थितान् रावो येन हृतास्तस्मै नमोऽस्तु ब्रह्मराजये अधाधोधीत्याधि धी। निराकरणम् प्रतीकम् मे विचक्षणम् जीह्वा मे मधुयद्वचः कर्णाभ्याम्भोलिशुश्रुमे मात्मग्रहार्ये श्रुतम् मयि ब्रह्मणः प्रवचनमसि ब्रह्मणः प्रतिष्ठानमसि ब्रह्म कोशोऽसि सनिरसि शान्तिरस्य निराकरणमसि ब्रह्म कोशम् मे विशा बाला त्वा विदधामि बाला त्वापि दधामि तिष्ठ प्रतिष्ठा भवतु प्यायन्त्वमेऽङ्कानि वा प्राणश्चक्षुश्रोत्र यशो बलम् यन्मे श्रुतमधीतम् तन्मे मनसि तिष्ठतु ओ